जय शङ्कर पार्वती पते मृडशम्भो शशिखण्डमण्डन मदनातकभर्तवत्सल प्रियकैलासदया सुधम्बुदे सरूपाय तथा स्वपण्डितो हृदये दुःखशरेण खण्डितो शशिखण्ड शिखण्डमण्डनं शरणं यामि शरण्यमीश्वरं महतः परितः प्रसर्पतस्तमसो दर्शनवेदिनोभिदे यम् तव चर्म चक्षुषा पदवीमप्युपवीक्षितु क्षमा कृपया भयदेन चक्षुषा सकलेनेश विलोकया शुनो स्वरनुस्मृतिरेव पवनीकृतियुक्ता न हि वक्तुमीशसा मधुरम् हि पयो स्वभावतो ननु कीदृक्सितशर्करान्वितम् सविशोप्यमृता य ते भवाक्षवं दाभरणोऽपि पावनो भव एव भवां अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि राघवा अपि भैक्षचरो महेश्वरश्चरितं चित्रमिदं गिते प्रभो वितरत्यभिवाञ्छितम् दृशा परिदृष्टः किल हृदये स्मृतये धीमते नमतेऽभीष्टफलप्रदो भवान् सहसैव भुजङ्गपाशवाङ्नि गृह्णाति न या पुनः किमुषते सविषैरिव भीमपन्नगैर्विषयीरेभिरदं भी परीक्षतम् अमृतैरिव सम्भ्रमेण माम् अभिषिञ्चाशु दयावलोकनै मुनयो बहवोऽधन्यतां गमिता स्वाभिमतार्थदर्शिनः करुणाकरै पश्य चक्षुषा प्रणमान्यथयामि चापरं शरणं कं कृपणाभयप्रदम् विरहीव विहो प्रियामयम् परिपश्यामि भवन्मयं जगद् बहवो भवतानुकम्पिता किमितिशाननमानुकम्पसे दधता किमु मन्दराचलम् परमा तेन दुःखरः अशुचिं यदिमानुमान्यस्य किमितं मूर्ति कपालदाम ते उदशामसाधु सङ्गिनं विफलक्ष्मासि न विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः वनुतिष्ठसि रक्ष रक्ष मामयि शम्भो शरणागतोऽस्मि ते विलुठाम्यवनौ किमाकुलो किमुहन्निशिरश्चिनग्नि वा किं रोदि निरारटीमि किम् मानय दीक्षसे प्रभो शिव सर्वगशर्वशर्मदम् प्रणतो देवदयां पुरुष्वमे नम ईश्वरनाथ द्विक्पते पुनरेवेश नमो नमो शरणं तरुणेन्दुशेकरो शरणं मे शरणं पुनरेवताबुभौ शरणं नान्यदुपैमिदैव तम् स्तवोत्तमं जपतः शम्भुसमीपवर्तिनः अभिवाञ्छित भाग्यसम्पदो परमायुः प्रददाति शङ्करः उपमयुकृतं स्तवोत्तमम् व्रजते यस्तु शिवस्य सन्निधौ शिवलोकमवाप्य सोचिरात्